श्रीमद्भागवतमहापुराणं दशमस्कन्ध चतुर्दशोऽध्यायः एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया वि चक्षते गुरुवर्कलब्धोपनिषत्सु चक्षुषा एते तरन्तीव भवानि तां बुधिम् आत्मानमेवात्मतया विजानताम् तेनैव जातं निखिलं प्रपञ्चितं ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्वा महिर्भोगभवा भवौ यथाम् अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ अजस्य अजस्तचित्तात्मनि केवले परे विचार्यमालेतरणाविवाहने मात्मानं परं मत्वा परमात्मानमेव च आत्मा पुनर्बहिर्मृग्य जनताज्ञता अन्तर्भवेनन्तभवन्तमेव यतत्यजन्तो मृगयन्ति सन्त असन्तमप्यन्त्यैमन्तरेण सन्तं गुणं तं चिमुयन्ति सन्त अथापि ते देवपदाम्बुजद्वयप्रसादलेशानुगृहीत एवहि जानाति तत्त्वं भगवन्महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् तदस्तु मेनात् स भूरिभागो भवेत्र वाण्यत्र तु वा तिरश्चाम् भवज्जनानां भूत्वा निसेवे पादपल्लवम् अहोति धन्याम्रजगोरमण्यसंज्ञामृतं पीतमतीव ते मुदा यासां विभोवस्तरात्मजात्मना यतृप्ययेद्यापि न चालमध्वरा अहोभाग्यमहोभाग्यं नन्दगोपव्रजौकशां यन्मित्रं परमानन्दं पूर्णं ब्रह्मसनातनम् एषां तु भाग्यमहिमाच्युत तावदास्ताम् एकादशैव हि वयं बत भूरिभागा एतद्धृतीकचसखैरसकृतप्रिभाम तर्वादयोग्रग्युदं च मद्वमृतासवं ते तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यद्गोकुलेऽपि गतमाग्रियजोऽभिषेकम् यज्जीवितं तु निखिलं भगवान् मुकुन्द सद्यापि यत्पदरजश्रुतिमज्ञमेव येषां घोषनिवासिनामुत भवान् किं देवरातेति नश्चेतो विश्वफलात्पलं त्वदपरं कुत्राप्यन्मुह्यति तद्वेषादिपूतानां पूतनापि सकुलात्त्वामेव देवापिता यद्धामार्त स्वेद्व्यात्मतनयप्राणाशया स्वन् स्वकृते तावद्रागादयस्निन्स्तेनास्तावत्कारागृहं गृहं तावन्मोहो घृणिं निगडो यावद् कृष्णन ते जनाः प्रपञ्चं निष्प्रन् प्रपञ्चोऽपि विलम्बयसि भूतले प्रपन्नजनतानन्दसन्दोहं त्वसितुं प्रभो जानन्त एव जानन्तु किं बहुक्त्यां भक्त्या न मे मनसो वपु वाचो वैभुवं तव गोचरः अनुजानेहि मां कृष्ण सर्वं त्वं वेसि सर्वदे त्वमेव जगतां नाथो जगदे दत्तवं तवार्पितम् श्रीकृष्णवेष्णे कुलपुस्करज्जो सदायिन् वाणिर्जरद्वेजपशुदधिवृद्धिकारिन् उद्धर्मसार्वरहं क्षितिराक्षसध्रु गाकल्पमार्कमर्हनं भगवन् नमस्ते भूमानं इत्यभ्यश्चोयभूमानं त्रिपरिक्रम्यपादयोः नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत